अथ चतुर्दशः सर्गः अथ पञ्चवटीम् गच्छन् नन्तरा रघुनन्दनः आससादमहाकायम् गृध्रम् भीमपराक्रमम् तम् दृष्ट्वा तौ महाभागौ वनस्थम् रामलक्ष्मणौ मेनाते राक्षसम् पक्षिम् को भवानिति ततो मधुरया वाचा सौम्यया प्रीणयन्निव वाचवत्समां विद्धिवयस्यं विद्धि वयस्यम् पितुरात्मनः सतम् पितुसखम् मत्वा पूजयामास राघवः सतस्य कुलमव्यग्रमथप्रच्छनाम च रामस्य वचनम् श्रुत्वा कुलमात्मानमेव च आचक्षे पूर्वकाले महाबाहो ये प्रजापतयो भवन् तान्मे निगदतः सर्वानादितः शृणु राघव कर्दमः प्रथमस्तेषाम् विकृतस्तदनन्तरम् शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् स्थाणुर्मरीचिरत्रिश्च महाबलः कुलस्त्यश्चाङ्गिराश्चैव प्रचेताः कुलहस्तथा दक्षो विवस्वानपरोरिष्टनेमिश्च राघव कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः महा। प्रजापतेस्तु दक्षस्य बभूभुरिति विश्रुताः षष्टिर्दुहितरो राम यशस्विन्यो महायशः कश्यपः प्रतिजग्राहतासामष्टौ सुमध्यमाः अदित्यञ्चदितिञ्चैव धनुमपि च कालकाम् ताम्राम् क्रोधवशाम् चैव मनुम् चाप्यनलामपि तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् पुत्रान्स्त्रैलोक्यभर्तृन्वै जनयिष्यथ मत्समान् अदितिस्तन्मनारामदितिश्च दनुरेव च कालकाच महाबाहो शेषास्त्वमनसोऽभवन् अदित्याम् जज्ञ रे देवास्त्रयस्त्रिंशदरिन्दमा आदित्या वसवो रुद्रा अश्विनौ च परन्तप दित्यस्त्वजन यत्पुत्राम् दैत्याम् स्तात यशस्विनः तेषामियम् वसुमती पुरासीत्सवनार्णव दनुस्त्वजन यत्पुत्रमश्वग्रीवमरिन्दमा नरकम् कालकञ्चैव काल कापि व्यजायत क्रौञ्चीम् भासीम् तथा म्रा शुषुक्या पंचईता लोक विश्रुता उलूकांजन यौंची भासी भासान्य जायत श्येनीश्येनाध्राश व्यजात सुतेजस धुतराष्ट्री तो हंसाश्च कलहंस चक्रवाकांश भद्रंतेज सानी शुकीनताम् विजज्ञेतु तु नतायाम् विनता सुता दशक्रोधवशामविजज्ञेऽप्यात्मसम्भवाः मृगीम् च मृगमन्दाम् च हरीम् भद्रमदामपि मातङ्गीमथ शार्दूलीम् श्वेताम् च तथा सर्वलक्षणसम्पन्नाम् सुरसाम् कद्रुकामपि अपत्यन्तु मृगाः सर्वे मृग्या नरवरोत्तमा वृक्षाश्च मृगमन्दाया समराश्च मरास्तथा ततस्त्वैरावतीम् नामजज्ञे भद्रमदा सुता तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः हर्याश्च हरयोपत्यम् बाणराश्च तपस्विनः गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् मातङ्ग्या स्वथ मातङ्गा अपत्यम् मनुजर्षभा दिशा गजन्तु काकुत्स्थश्वेता व्यजनयत्सुतम् ततो दुहितरो राम सुरभिर्द्वे व्यजायत रोहिणीम् नाम भद्रन्ते गन्धर्वीम् च यशस्विनीम् रोहिण्यजनयद्गावो गन्धर्वीवाजिनः सुतान् सुरसा मनोर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः ब्राह्मणान् क्षत्रियान् वैश्यान्च्छूद्रांश्च मनुजर्षभा मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा पूर्वभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत विनता शुकी पौत्री कद्रूच सुसा कद्रोर्नागसहस्रं विज्ञे धरने धरा दव विनतायास्त गरुो ऋण एव तस्माजाहुपाति मग्रज जटातिष्येणपुत्रंदमा सोहं वासहायस्ते भविष्या यदीछसी इदं दुर्गम् हि कान्तारम् मृगराक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते स लक्ष्मणे जटायुषम् द्वप्रतिपूज्य राघवो मुदा परिष्वध्य च सन्नतो भवत शुश्रावसखि त्वमात्मवान् जटायुषा सङ्कथितम् पुनः पुनः स तत्र परिदाय मैथिलीम् सहैव तेनातिबलेन पक्षिणा जगामताम् पञ्चवटीम् सलक्ष्मणो रिपून्दिधक्षन् शलभानिवानलः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुर्दशः सर्गः